मम सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अद्य किञ्चित् व्यवहारविषये किञ्चित् वयं पश्यामः इत्युक्ते योगनिष्ठजीवने ये अंशाः सन्ति तेषां पुनः स्मरणम् इति किञ्चित् कुर्मः इत्युक्ते योगनिष्ठजीवने आहारः इति बहु मुख्यविषयः अस्ति अनन्तरं निर्जलोपवासः एवं शौचम् इति अपि मुख्यः विषयः अस्ति तर्हि इदानीं किञ्चित् भवन्तः किञ्चित् कालात् अस्य अभ्यासं कुर्वन्तः सन्ति अतः किञ्चित् तत्र भवताम् अनुभवः कथमस्ति इति किञ्चित् वदन्ति चेत् बहु सम्यक् भवति इत्युक्ते तत्र वयं जानीमः जगति यद् यानि वस्तूनि सन्ति तेषु सर्वेषु वस्तुषु गुणाः सन्ति सत्त्वगुणः रजगुणः तमोगुणः इति गुणाः सन्ति तर्हि भोजनमपि तथैव भोजनेषु अपि गुणाः सन्ति किञ्चित् भोजनं वर्तते यस्मिन् कस्यचित् गुणस्य प्राधान्यं भवति तत्त्वगुणस्य वा तमोगुणस्य वा रजगुणस्य वा तर्हि अत्र योगनिश्च जीवने अस्माभिः चर्चितं यत् तादृशभोजनं ग्राह्यं यस्मिन् सत्त्वगुणः वर्तते इति यतोहि अस्माकं शरीरे असङ्ख्यकाः कोशाः सन्ति तर्हि कोषः कथं वर्धन्ते इति चेत् अन्येन जलेन अनन्तरं वायुना प्रकाशनेन कोशाः वर्धन्ते तर्हि यादृशभोजनं पानं वयं स्वीकुर्मः तदनुगुणं अत्र कोशाः वर्धन्ते कोशानां वर्दनेन मनसि अपि प्रभावः भवति तर्हि अतः एव यः साधकः अस्ति सः सावधानतया भोजनस्य ग्रहणं करोति यदि तामसिक आहारस्य ग्रहणं कुर्मः तदानी तदानीं मनसि प्रभावः भवति मनसि प्रभावः भवति चेत् आध्यात्मिकजीवने इच्छा न भवति आलस्यम् आयाति अतः एव सर्वदा सात्विकाहारस्य ग्रहणम् अस्माभिः करणीयं सात्विकाहारग्रहणेन अस्माकं शरीरे ये कोशाः सन्ति तेषां वर्धनं सम्यक्तया भवति कोशाः अपि सात्विकाः भवन्ति तादृशकोशानां प्रभावः यदा मनसि भवति तदानीं मनः अपि सात्विकं भवति इत्युक्ते अन्नेन एव मनः जायते यदि अन्नं तामसिकम् अथवा राजस्विकम् अस्ति तर्हि तादृशप्रभावः एव मनसः उपरि भवति इति वयं स्वयम् अनुभोक्तुं शक्नुमः अतः इदानीम् अस्माकम् अभ्यासः तादृशः भवेत् इत्युक्ते येन अस्माकम् अग्रगतिः स्यात् सात्विकभोजनेन आध्यात्मिकरुचिः वर्धते आध्यात्मिकः रुचिः आध्यात्मिकरुचिः यदा वर्धते तदानीम् अस्माकम् अग्रगतिः अवश्यमेव भवति अन्ततो गत्वा निर्गुणपुरुषः पुरुषः अस्माभिः प्राप्तव्यः तर्हि गुणान् अतिरिच्य अस्माभिः गन्तव्यं परन्तु तत्र मार्गः कथमस्ति इति इति चेत् प्रथमतया सत्त्वगुणस्य प्राधान्यं भवेत् तदनन्तरमेव अग्रगतिः तद्गुणान् अतिरिच्य वयं गन्तुं यदि अत्र तमोगुणः अथवा रजोगुणस्य प्राधान्यं भवति तदानीम् अग्रगतिः न भवति इतिते अस्माकं शरीरे सर्वे एते त्रयः गुणाः सन्ति परन्तु कस्य प्राधान्यम् इति एव अत्र मुख्यः विषयः अस्ति सत्त्वगुणस्य प्राधान्यं भवति चेत् मनः सात्विकं भवति अग्रगतिः सुलभेन भवति साधनायामपि मनः लगति नो चेत् साधनायां मनः न तिष्ठति अतः तत्त्वगुणस्य प्राधान्यं वर्तते अस्माभिः किं चर्चितम् इति चेत् होल् फुड् प्लान् बेस्ड् डयेट् इति एव अस्माकं मन्त्रः अस्ति इत्युक्ते यावत् शक्यं रा फुड्स् वयं स्वीकुर्मः इति अस्माभिः बहुवारं चर्चितम् आसीत् तर्हि इदानीं जीवने ये अंशाः सन्ति तेषाम् अनुभवः कथमस्ति भवताम् इति किञ्चित् अहं प्रष्टुमिच्छामि तत्र येन ये जनाः अत्र ध्वनिमुद्रणं शृण्वन्ति तेषामपि पुनस्मरणं स्यात् इति कृत्वा अत्र सुचित्राभगिनी भवती वदति वा अनुभवः कथमस्ति इति नमस्कारः मम अनुभवः इदानीं पर्यन्तं यद् अहं प्रयोगं कृतवती यदा योग यौगिक आहार इति वदामः चेत् प्रथमं तु कृतवती निर्जलोपवासेन वर्षद्वयस्य पूर्वं निर्जलोपवासः कृत्वा एकादशीतः आरम्भं कृतवती ततः प्रथमं तु एकमासपर्यन्तं तद् किञ्चित् क्लेशकरः आसीत् किञ्चित् किमर्थं चेत् एतादृशनिर्जलोपवासः कदापि अहं न कृतवती अतः परन्तु तदनन्तरं तु एतत् सामान्यरीत्या अभवत् किमपि एकमास अनन्तरं तत्र एक अभ्यासः अभवत् उपवास अनन्तरम् उपवास कथम् उपवासदिन अनन्तरं तत्र उपवासस्य एकः कथं तस्य किं वदामः फास्ट् ब्रेकिङ्ग् करणीयम् कथं तस्यापि अनुभवः सम्यक् आसीत् प्रथमं किञ्चित् आम् एकमासवा द् मासद्वयस्य कृते एव किञ्चित् क्लेशः आसीत् परन्तु तदनन्तरं तत् सम्यक् अभवत् सामान्यरीत्या अभवत् एकादशी निर्जलोपवासेन आरम्भं कृत्वा तदनन्तरम् अहं चिन्तितवती प्रथम तु मम अपि प्रश्नः आसीत् कथं वयं जीवामः दुग्धं विना किमर्थमित्युक्ते अस्माकं बाल्यकालतः तत् अभ्यासः अस्ति दुग्धं बधी एतत् सर्वं खादनीयं तत्रैव अस्माकं शरीरस्य uh, वा मनस वर्धनं भवति इति अतः तत्र अनेकानि प्रश्नानि आसीत् सङ्कोचः अपि आसीत् एतत् त्यजामि चेत् कीदृशः तत्र इफेक्ट् भवति शरीरे वा तत्र क्लेशः भवति वा एतत् सर्वम् आसीत् मनसि परन्तु अग्रे चिन्तितवती एतत् सर्वं कथम् अस्माकं समीपम् आयाति तत्र पूर्वे यदा तेषाम् अभवत् तत्तु भिन्नम् परन्तु इदानीं तेषाम् उत्पन्नं कीदृशम् अभवत् कीदृशम् अस्ति तद् चिन्तयित्वा अहं चिन्तितवती न मया तु तस्मिन् व्यवसाये मम किमपि तत्र किमस्ति रोल् न भवतु इति चिन्तयित्वा तत् त्यक्तवती दुग्ध देही इति वदामि चेत् अन्यथा तु पूर्वं तत्तु मम खाद्यस्य भोजनस्य मुख्यम् आहारमासीत् तदनन्तरं तत्र एकः सङ्घर्षः आसीत् किमर्थमित्युक्ते जिह्वायां तस्य स्वादः इति मनसि आसीत् अतः किञ्चित् समयम् अभवत् परन्तु मनसि तु दृढचिन्तनम् आसीत् अहिंसाभावः इति कथञ्चित् था तस्य अस्माकं जीवने अनुसरणीयं मम स्वादस्य कृते अन्यकोपि जीवस्य हानिः न भवतु इति चिन्तयित्वा तत् त्यक्तवती परन्तु तत्र यदा अहं तत् त्यक्तवती तत्र कदाचित् सर्वे जनाः अपि मम परिवारजनाः अपि सर्वे भारम् उक्तवन्तः एतादृशं न करणीयं वयं तु शाकाहारी महा अस्माकं कृते तद् आवश्यकम् इति परन्तु तादृशम् अग्रे गत्वा तादृशं किमपि अनुभवः न अस्ति तदावश्यकमिति तद् तत्तु तद केवलं भ्रान्तिः आसीत् तस्य आवश्यकता इति शरीरस्य कृते न आसीत् पुनः अभ्यासं कृत्वा एकप्रयासं कृतवती एक यद् लवणं वा शर्करा वा तैलं वा तस्य कथञ्चित् तस्मादपि निवृत्तिः भवेत् इति अतः यदा चिन्तितवती एकसप्ताहं प्रयासं करोमि लवणं विना भोजनस्य तैलं विना तु कर्तुं शक्यते परन्तु लवणं तु न शक्यते इति चिन्तनमासीत् तद् एकवर्षं पूर्वं तत्र प्रयासं कृतवती एकसप्ताहस्य यदा अहं प्रथमं तु मनसि किञ्चित् नियन्त्रणम् आवश्यकं तद् नियन्त्रणं कृत्वा अस्तु एकसप्ताहस्य प्रयासं करोमि तदनन्तरम् अहं पुनः लवणयुक्त भोजनं करोमि इति परन्तु एकसप्ताहस्य मनसि सर्वदा आगच्छति किमपि किञ्चित् लवण युक्तभोजनं प्राप्यते चेत् सम्यक् भवति इति परन्तु एकनियन्त्रणं तत्र स्थापयित्वा अग्रे गतवती लवणं विना भोजनम् एकसप्ताहानन्तरम् अहं चिन्तितवती न एतत्तु तादृश किमपि क्लेशकरः नास्ति पुनः एकसप्ताहं प्रयासं करोमि एतस्मिन् सप्ताहे अपि लवणं विना एव भोजनं कृत्वा पश्यामि लवणं विना भोजनं तत्र आसीत् यद् स्पेन्नज् वदामः तत् तस्मिन् किञ्चित् लवणं भवति अन्यथा तु यदा राडिश् तत्रापि किञ्चित् स्वाद तत्रापि किञ्चित् लवणं भवति तद् सर्वं खादित्वा तत्सर्वम् अस्ति खलु तत् तेन अस्माकं यद् आवश्यकता अस्ति तत् परिपूर्णं भवति एव एतादृशं कृत्वा सप्ताहद्वयस्य अनन्तरं किमपि लवणस्य कृते तादृशः लवणयुक्तभोजनस्य कृते तादृशम् आसक्तिः नाम अभवत् अग्रे गत्वा एकमासम् अभवत् एतादृशम् इदानीं तत्तु सम्यक् अभवत् सामान्यरीत्या भोजनं यदा कुर्मः तादृशम् यदा लवणं विना भोजनम् आसीत् तत्र अस्तु किमपि कटुः खादितुं न शक्नुमः किमर्थम् इत्युक्ते तद् ग्रहणकरं न भवति यदा तत्र मरीचिका अस्ति चेत् मरीचि अस्ति मा चेत् तत्र क्लेशः भविष्यति लवणं विना अतः तस्मात् अग्रे लवणं विना भोजनस्य एक अभ्यासः अभवत् तदहम् एकवर्षम् अभवत् विना लवणं तैलं शर्करा तादृशं डेरी एतत् सर्वं त्यक्त्वा भोजनमपि सामान्यमासीत् चिन्तने किञ्चित् परिवर्तनम् अभवत् तद् प्रायेण कदाचित् एक कां स्टेट् आफ् मैण्ड् वदामः चेत् तावत् एजि एजिटेशन् न आसीत् मनसि किमपि न्यूनमभवत् न कदाचित् कदाचित् किमपि अघटनम् चेत् तत्र कथं तस्मात् बहिः आगन्तव्यम् इति मनसि चिन्तनमासीत् न तु तस्मिन् एव स्थित्वा किम् अभवत् किम् अभवत् किमर्थमभवत् एतादृशचिन्तनं न आसीत् अतः मनसि एकपरिवर्तनम् अभवत् शरीरे तु परिवर्तनम् आसीत् परन्तु मनसि यत् परिवर्तनम् अभवत् अहं तस्मात् प्रभाविता भवति तद् बहु सम्यक् आसीत् एतत्तु प्रथमवारम् आसीत् एतादृशपरिवर्तनं मनसि मनसि एक साधना कृते एकरुचिः आसीत् आम् एतदेव जीवनस्य लक्ष्यमस्ति न तु किमस्ति अन्यस्मिन् कार्ये यदा किमपि चलनचित्रं पश्या वा बहिः गत्वा बहिः भोजनं कुर्मः वा तादृशचिन्तनात् ता मनसि मनः निवृत्तः अभवत् इदानीं मनसि तादृशं किमपि इच्छा न आसीत् तत्रापि सङ्घर्षः आसीत् सर्वे जनाः उक्तवन्तः एतत् किं भवति इदानीमेव सन्यासं स्वीकृतवती कुतः बहिः न गन्तुम् इच्छति किमपि किमस्ति चलनचित्रं द्रष्टुमपि न आगच्छति एतादृश सर्वदा एकाकी भूत्वा किं करोति एतत्तु जीवनस्य लक्ष्यं नास्ति सर्वं सर्व जीवने सर्वं वस्तुम् आवश्यकम् एतादृशं लवणं विना कथं किमपि डेफिषियन्सि भवति परन्तु तादृशं किमपि न अभवत् कृपया तादृशं किमपि परन्तु अग्रगतिः एव अभवत् इदानीम् एक पुनः अहम् एक परिवर्तनम् आनेतुम् इष्टवती होल् फुड् प्लान् बेस्ड् इति स्वीकृत्य तद् आरम्भं कृतवती प्रायेण एकमासात् पूर्वम् एकसप्ताहं प्रयासं करोमि पुनः परिवारजनानां ये किमपि तत्र वाग्विवादः भूत्वा अन एतद् किमस्ति अन्नं विना शरीरस्य वर्धनं न भवति शरीरं क्षीणं भवति इति कृत्वा अस्तु एकवारं सप्ताहे एकवारं तस्य भोजनं करोमि कृत्वा कदाचित तादृशम् अपि स्वीकृतवती एकमासपर्यन्तम् परन्तु इदानीं दशदिनम् अभवत् प्रायेण अहं किञ्चित् तत्र होल् फुड् प्लाण्ट् बेस्ड् एवं स्वीकरोमि इति मनसि निर्धारितम् अतः तस्य आरम्भं कृतवती तु अनेकानि किमस्ति नट्स् पल्सस् स्प्रौट्स् इति वदामः चेत् तल्सि कृत्वा उदरस्य पूर्णं कृतवती अनेकानि तादृशं वस्तूनि स्वीकृत्वा ततः किञ्चित् बुभुक्षा न भवति इति चिन्तयित्वा परन्तु तस्मात् ता अनुभवः तादृश सम्यक् न आसीत् अतः अहम् आचार्यं समीपे पृष्टवती किं करणीयम् एतादृशः तु अहं होल् फुड् प्लान् बेस्ड् डायट् इति आरम्भं कृतवती परन्तु अनुभवामि सः उक्तवान् आसीत् सः एतादृश स्प्रौट्स् वा नट्स् वा तद् अस्माकं भोजने अधिकतया न भवतु तेन तु किमस्ति एका तामसिक एव अनुभूतिः भवति तत्र लाइट फीलिंग इति न आगच्छति अनन्तरं क्लेशः अपि तत् तु क्लेशकरम् अतः अधिकानि शाकानि फलानि च स्वीकुर्वन्तु अधिकानि यद् ग्रीन् लीव्स् अस्ति तत् स्वीकरोतु अतः तदहम् आरम्भं कृतवती यदा तस्य आरम्भं कृतवती तस्मादेव परिवर्तनं दिनद्वयेन एव अहं परिवर्तनं दृष्टवती इदानीं तु दशदिनम् अभवत् होल् फुड् प्लान् बेस्ड् डायट् स्वीकृत्य केवलं शाकानि अपरं फलानि स्वीकृत्य अनुभवः शरीरे तु अनुभवः बहु सम्यक् अस्ति तत्र ऊर्जा अपि अस्ति किमपि आलस्यं नास्ति अनन्तरं मनसि तु एक शार्प्नेस् आगतम् इदानीं मनः शार्प् अस्ति अनन्तरं तत्र एक काम् स्टेट् आफ् मैण्ड् इति वक्तुमपि शक्नुमः पूर्वं यत्किञ्चित् उद्विग्नता आसीत् कदाचित् किमपि अभवत् चेत् तत्र एक दुःखमपि आसीत् इदानीं दुःखं नास्ति यत्किमपि भविष्यति अस्तु एतदेव परमपुरुषस्य इच्छा अस्ति चेत् तत्र कः क्लेशः क्लेशः अपि न सर्वं तु किमस्ति क्लौड्स् इव मेघः इव आगच्छति आगच्छति तत्तु तस्मात् कार्यं करोति परन्तु अस्माकं तत्र अस्माकं मनसि यादृशप्रतिक्रिया भवेत् तस्मादेव तस्मै एव अस्माकं चिन्तनीयमस्ति तत् कथञ्चित् परिवर्तनं करणीयम् मनसि तादृशः भावः न आगच्छतु एतद् मां मम पतनस्य कारणं भवति इति अतः मनसि एक निर्भयभावः इदानीं भयः नास्ति यत्किमपि भवति अस्तु भवति यत्किमपि परमपुरुषस्य इच्छा अस्ति तेन एव अग्रगतिं तेन एव सर्वं चलति अतः किमर्थं तस्य विषये अधिकचिन्तनस्य आवश्यकता नास्ति यद् मया करणीयं तेन एव तदेव मम चिन्तनस्य वस्तु भवतु इति कृत्वा यद् साधनायाः अपि साधनामध्ये अपि अनुभवः सम्यक् अभवत् होल् फुड् प्लाण्डेस् डयेट् इति स्वीकृत्वा इदानीं साधनासमये मनसि एक भावः सितः तदहं वक्तुं न शक्नोमि वाक्येन परन्तु सम्यक् अस्ति तद् इदानीं तत्र कोऽपि आलस्यभावः नास्ति सर्वदा तद् यद्वदामः ब्रह्मचर्यभावः तदिदानीं प्रायेण भवति स सर्वस्मिन् समये कदाचित् कदाचित् न भवति कदाचित् मनसि अन्यथा चिन्तनं भवति चेदपि तस् ततः मनसि आगच्छति आम् इदानीमहम् ईश्वरप्रणिधानं न करोमि अतः एव एतादृशचिन्तनम् आगतं मनसि अतः तद् एक स्मारकं भूत्वा रिमैण्डर् अहं विस्मृतवती अतः इदानीं मम मनसि एतादृश दुश्चिन्तनम् आगतम् इति कृत्वा तद् पुनः मां मार्गं प्रति नयति अतः यद् मम अनुभवः इदानीं पर्यन्तम् अहं वदामि चेत् एतत्तु बहु सम्यक् अस्ति तत्र कोऽपि किं वदामः क्षतिः इव एतादृश नास्ति एतत्तु बहु लाभदायकः एव जीवनस्य एका नूतनगतिः प्राप्ता मया तदेव भगिनी बहु समीचीनं भगिनी उत्तमम् अस्ति उत्तममस्ति भवती उत्तमा छात्रा वर्तते सर्वं यद्यद् अस्माभिः पठितं यद्यद् चर्चितं यद्यत् योगनिष्ठजीवनस्य ये ये अंशाः सन्ति तेषां सर्वेषां पालनं भवती सम्यक्तया कुर्वन्ती अस्ति कुर्वती अस्ति अतः बहु समीचीनं भगिनि अस्माकं प्रेरणा वर्धते भवत्याः कथनं श्रुत्वा बहु सम्यक् अस्तु धन्यवादः भगिनि इदानीम् इत्युक्ते भगिनी सर्वदा यदा वयं पश्यामः <laughs> तस्य कृति पासिटिव् थाट् प्रासेस् आसीत् अस्य विषये सर्वदा तत्र उत्साहः आसीत् अत्र किमस्ति मया अहं पश्यामि अत्र किम् अस्ति अहं प्रयासं करोमि एक्स्पेरिमेण्ट् करोमि एक्स्पेरिमेण्ट् कृत्वा अहं पश्यामि तत्र किम् अस्ति शरीरे कीदृशपरिवर्तनं भवति अस्माकं मनसि कीदृशपरिवर्तनं भवति इति तद् यदा वयं पालयामः तदानीमेव वयम् अनुभोक्तुं शक्नुमः यावत्पर्यन्तं केवलं शृण्मः तदानीं न भवति खलु अतः भगिनी एकैकम् अंशं स्वीकृत्य एक एक एकस्मिन् सप्ताहे तस्य प्रयासं कृत्वा कीदृश इत अस्ति इति दृष्ट्वा सम्यक् इति अनुभूय सा अग्रगतिं प्राप्तवती इति एवमेव अस्माभिः करणीयम् एकैकम् अंशं क्रमेण स्वीकृत्य अत्र किमस्ति अत्र किमस्ति अहं पश्यामि इति एवं रीत्या तत्र उत्साहः भवेत् उत्साहः नास्ति चेत् श्रुत्वा ओ एतद् मम कृते नास्ति इति वयं त्यजामः चेत् तद् तेन सः लाभः इति इदानीं तत्र सर्वान् स्वीकृत्य इदानीं भगिनी तत्र किं महान् सन्तोषः अपि भगिनी इदानीम् अनुभवति खलु तर्हि <laughs> <laughs> इति तत्र उत्साहः भवेत् तदानीमेव अग्रगतिः भवितुमर्हति प्रयासः आवश्यकः प्रयासः नास्ति चेत् न ना भवितुमर्हति अस्तु धन्यवादः भगिनि इदानीं तत्र किं सरला भगिनी भवती वदति वा भवती वक्तुं शक्नोति भगिनि मम किमपि सुचित्रा भगिनी न न तथा नास्ति भगिनि तथा नास्ति तथा भवत्याः अपि सङ्घर्षः अस्ति भवत्याः अनुभवः अस्ति तत्रापि अस्मा अस्माकं सर्वेषां तेन अनुभवेन अस्माकं लाभः अवश्यं भवति अतः कृपया वदतु सुचित्रा भगिनी इव इति किमपि न वदतु भवत्याः अनुभवः कथमस्ति इति वदतु अस्माकं प्रत्येकं यः सङ्घर्षः अस्ति सः सङ्घर्षः विलक्षणः अस्ति विलक्षणः सङ्घर्षः अतः तुलनां वयं न कुर्मः तस्याः एवम् अस्ति मम एवम् अस्ति इति नास्ति भवत्याः अनुभवः कथमस्ति uh, निर्जलोपवासः इति सम्यक् करोमि द्विवर्ष आदौ इति इदानीम् अभवत् uh, प्रथमं तस्य पूर, पूर्व पूर्वम् अहम् एकवारमेव केवलं महाशिवरात्रिदिवस दिवसे कृतवती भारतदेशे गतवती तत्र भग्नौ मम भग्न्या अपि भ्रातरौ सर्वे कृतवन्तः हम अहमपि कृतवती तेषां तैः सह तु यदा अस्मिन् जीवने आगतवती महोदयस्य पाठम् uh, इति तो अहं प्रयासं कृतवती सम्यक् uh, मम भावना आगति uh, आगतवती मन, uh, मनसि uh, मम शौचकीया uh, उपवासदिनन्तरम् uh, uh, अस्ति तत् अहं uh, Uh, पूर्णतया इति स्वीकरोमि कारणकी इति अहं अवगच्छामि uh, इति डीटाक्सिकेशन् डीटाक्सिफिकेशन् अस्ति न्याचुरल् वे तो इति uh, मया uh, अनुभवः अस्ति इति सम्यक् uh, भाति मम मम प्रति मां वदति मास्तु मास्तु इति न नकर, नकर, <laughs> करोतु किम् एता वर्षाणि तु न कृतवती इदानीं भवती जर्रा भवति इदानीं करोति अहं वदामि इति अपि साधु अस्ति भवान् अपि करोतु किन्तु इति भवत् सङ्घर्षः भवति गृहे यदा अहं निर्जलोपवास करोमि वा क्रिया करोमि निर्जलोपवास क्रिया यदा क्रिया करोमि कञ्चित् समय इति बहु शीतम् अनुभवामि तो अहं मध्ये मध्ये तुप्ता, अहं शयामि किन्तु इति दृष्ट्वा मम पति दुःखिता दुःखिता भवति किं कथम् इति करोति भवतु भवती दृष्ट्वा भव इति क्षीणा भवति भवति किन्तु अहं सम्यक् अनुभवामि इति भोजनार्थे यदि एकवर्षपर्यन्तम् अहं न षड्मासपर्यन्तम् अहं सम्यक् कृतवती किमपि लवणं वा तैलं न स्वीकृतवती किन्तु पुनः शनैः शनैः मम टेम्प्टेशन् इति सर्वं न अपगत् आप, गच्छ अपगच्छन्ति गृहे सर्वम अस्ति तो, तो दृष्ट्वा तदानीं केवलं होल् बेस् फूड् खादामि केवलं स्प्राउट्स वा सेलड् इति खादामि तदनन्तरम् इति बहु आकर्षणं भवति किञ्चित् लवणम् इति यदि अहं खादामि इति तो अहं े इति प्रथमं खादितवती आदि गृहे भवन्ति तु अहं स्वीकरोमि एकम् अद्वयम् इति किन्तु इति सम्यक् भाति तदनन्तरं किन्तु यदि मम मन्दिरं गच्छामि तत्र प्रसादं स्वीकरोमि तत्र पूर्वमहं केवलं तत्र स्यालेड् खादितवती इदानीं यदा स्यालेड् नास्ति यत् इति भाति अधिकं तेलं नास्ति वा लवणं नास्ति अहं केवलं दाल् वा तण्डुलमिति स्वीकरोमि व प्लेन् चपाटी खादामि किन्तु भोजनं प्रति मम किमपि अधिकं प्रचलन् नास्ति निग्रहणं नास्ति भोजनं प्रति मम हा न न सम्यक् भवती प्रयासं करोति खलु समीचीनम् भगिनि भवती प्रयासं करोति खलु इत्युक्ते सङ्घर्षः अस्ति सङ्घर्षः अस्ति अतः सङ्घर्षः पुनः पुनः करोतु तदानीं प्रयासं पुनः पुनः करोति चेत् तदानीम् अन्ततो गत्वा सम्यक् स्थापल्यं लभ्यते अतः भवती इदानीं जानाति खलु एतत् मया न खादितव्यम् इति जानाति तदानीमपि कदाचित् टेम्टेशन् अस्ति इति कृत्वा भवती स्वीकरोति अतः चिन्ता पुनः प्रयासं करोतु पुनः पुनः करोतु अन्ततो गत्वा लभ्यते अतः क्लेशः नास्ति अपि यत्र बहिः गच्छति बहिः यत्र गच्छति तत्र बहिः खादनीयम् इति नास्ति खलु भगिनी गृहे खादित्वा गच्छतु तत्र अतः बहिः गत्वा बहु किमपि खादनीयम् इति नास्ति अथवा गृहात् एव यद् आवश्यकं तत् स्वीकृत्य गच्छतु तदानीं यदा बहिः गच्छति तदानीं तत्र खादनीयम् इति निर्बन्धः न भवति यत्र कुत्रापि गच्छति अतिथ्या आगच्छन्ति तेषां प्रति सर्वमिति अहं पचामि ते तेऽपि तेषां तैः सह उपविश्य खादितुं खादनं करणीयमिति आगच्छति न इत्युक्ते तत् कत कथम् इत्युक्ते तैः सह उपविश्य खादनीयम् एकमस्ति इत्युक्ते तेषाम् आगमनात् प्राक् एव भवती खादितुं शक्नोति खलु भवत्याः भोजनं यदस्ति तत् यदा उदरं पूर्णं भवति तदानीं तत्र टेम्टेशन् न भवति यदा उदरणम् उदरं पूर्णं नास्ति तदानीमेव टेम्टेशन् भवति खलु अतः हा इत्युक्ते अतः यत्र कुत्रापि गच्छति उदरं पूर्णमस्ति चेत् तदानीं टेम्टेशन् न आयाति यदा बुभुक्षा भवति तदानीमेव यत्किमपि लभ्यते तत् खादनीयमिति तादृश आशा जागरिता भवति यदा अस्ति तदा अहम् इति इच्छामि कुत्रापि गन्तुं ततः अद्य एकादशी अस्ति मम न खादनीयमिति अहं सम्यक् अनुभवामि एकादशदिवसे एतादृश टेम्पेशन् नास्ति खलु न किमपि नास्ति तर्हि भवत्याम् अस्ति तादृशसामर्थ्यम् अस्ति तर्हि किञ्चित् किञ्चित् प्रयासं कृत्वा कृत्वा अग्रगतिः अवश्यमेव भवति अतः क्लेशः नास्ति भवती कर्तुं शक्नोति सत्सङ्गस्य आवश्यकता अस्ति केषाञ्चन जनानां भवति केषाञ्चन किञ्चित् कालानन्तरं भवति अतः क्लेशः केवलं प्रयासं कृत्वा कृत्वा अग्रे एकस्मिन् दिने सर्वं सर्वं सिद्धं भवति अतः प्रयासः एव आवश्यकः तावदेव तदनन्तरम् आयाति परन्तु भवत्याः प्रयासः एतावत् यः प्रयासः सः सम्यक् अस्ति सम्यक् प्रयासः अस्ति ओके समीक्षणं धन्यवादः अपि च भवताम् अभ्यासः अस्ति वा अन्येषां प्रेरणाय अन्ये जनानां प्रेरणाय सुचित्रभगिनी भवति तु वर्गं चालयति वर्गं विहाय अन्यत्र कुत्रचित् प्रचारः युवजीवनमित्यस्य प्रचारः तस्मिन् विषये भवत्याः अनुभवः कथमस्ति यत् इदानीं तु मम चिन्तनमस्ति यादृशी आनन्दम् अहम् अनुभवामि तादृशी आनन्दं सर्वे अपि प्राप्तुं शक्यते किमर्थं वा न इति चिन्तयित्वा अहं वदामि परिवारजनानां समीपे वा बन्धुजनानां तेषां समीपे अपि वदामि अग्रे कदाचित् ते शृण्वन्ति परन्तु कदाचित् ते पालनं कुर्वन्ति कदाचित् न कुर्वन्ति यत् तत्र मम चिन्तनमस्ति अस्तु तादृशमहं वक्तुं शक्नोमि तेषां किमपि सहायम् आवश्यकता अस्ति चेत् कर्तुं शक्नोमि परन्तु अग्रे गमनस्य तु Uh, अग्रे गन्तव्यं चेत् तेषां प्रयासमपि आवश्यकं न तु uh, केवलं uh, मम सहाय्यम् इति चिन्तयित्वा कदाचित् ते तस्य पालनं न कुर्वन्ति चेत् यदा हम किमपि मनसि uh, क्लेशः किञ्चित् भवति एतादृश अहम् uh, उक्तवती सर्वम् उक्तवती पुनः ते तादृशं जीवनमेव केवलम लवणशर्करा तैलं युक्तभोजनम् एव खादितुम् इच्छन्ति रोगान् अपि अनुभवन्ति परन्तु ततः अपि किमपि ते अग्रे एतस्य तत् न इच्छन्ति पुनः टेम्प्टेशन् इति कृत्वा पुनः तत् स्वीकृत्य तदपि तादृशभोजनं स्वीकुर्वन्ति पुनः रोगस्य निवारणार्थम् अङ्गुलिकामपि स्वीकुर्वन्ति तादृशं चिन्तनमस्ति तेषां कृते अहं वदामि एतद् एतादृशः एता कर्तुं शक्यते किमर्थं चेत् यद् प्रयासं कृतवती तत्र दृष्टवती तत्र कीदृशः परिवर्तनं भवति इति परन्तु कदाचित् ते पालनं कुर्वन्ति कदाचित् न मम गृहे अपि मम सहोदरी सा अपि इदानीं करोति परन्तु कदाचित् सा इदानीं पर्यन्तं तत्र लवणयुक्तभोजनस्य तस्य एक टेम्प्टेशन् अस्ति अतः त तत् परन्तु एतत् स्वीकरोति इदानीं प्रातः यदा भोजनमस्ति तत् केवलं फलं प्रायेण मम भगिनी तु अपि फलानैव खादित्वा प्रातः भोजनस्य आरम्भं कुर्वन्ति तेषां प्रयासः अस्ति कदाचित् अग्रे गत्वा परमपुरुषस्य कृपया ते अपि पूर्णरीत्या एतादृशयोगनिष्ठजीवनस्य पालनं कर्तुम् तेषामपि इच्छा भवति प्रायेण ये बन्धुजनाः सन्ति तेषां समीपे वदामि ये कस्यामपि यदा अहं पूर्वे गतवर्षे भारते आसं तत्र रेलयाने प्रयाणं कृतवती तत्र मम पार्श्वे ये एक एकः जनः आसीत् सः प्रायः सः पञ्चविंशतिवात् विंशतिवात् आयुः भवेत् तस्य सः तस्य तस्य सह मम सम्भाषणम् अभवत् यदा रेलयाने भारते रेलयाने भ्रमणमस्ति ते तत्र भोजनमेव मुख्यविषयः भवति चर्चां वा किमपि अन्यकार्यं नास्ति खलु तत्र सर्वे एकस्मिन् स्थाने उषित्वा तत्र अन्य किमपि कार्यं नास्ति अतः यत् यत्किमपि रेलयाने आगच्छति स्न्याक्स् इति उक्त्वा सर्वे स्वीकुर्वन्ति अन्यन्तरं तस्यापि वितरणं भवति यदा अहम् उक्तवती अहं तादृशं भोजनं न करोमि सः पृष्टवान् मम समीपे किमर्थम् एतत् किम् अस्ति अहम् उक्तवती अहं तु केवलं विना लवणयुक्तभोजनं स्वीकरोमि अतः तद् बहिः अहं न खादामि इति कृत्वा सः पुनः तत्र इच्छा अभवत् अस्य सः पुनः पृष्टवान् कीदृशभोजनं करोति एतत् सर्वं कुत्र अस्ति वा इन्स्टाग्राम् मध्ये कुत्रापि स्थापितवती वा अहं तृप्तवती न तादृशं सोशियल् नेट्वर्किङ्ग् मम नास्ति परन्तु एतादृशम् अस्ति भवानपि एतस्मिन् विषये अधिकं इच्छति चेत् अहं पूर्णविवरणं ददामि परन्तु तत्र एकसम्भाषणम् अभवत् तत्र अन्ये पार्श्वे ये यात्रिणः आसन् वा वा आ, ते समीपे अपि एकसम्भाषणम् अभवत् परन्तु एक यदा एकहोरा वा द्विहोरा अनन्तरं यदा पुनः किमपि भोजनवस्तुमागतं रेलयाने विक्रणमे तु ते पुनः तत् सर्वं किम् आसीत् किमपि तैलभर्जितं वस्तुम् आसीत् ते सर्वं स्वीकृतवन्तः तद्दृष्ट्वा अहं चिन्तितवती एतावत् यदा चर्चा अभवत् पुनः अपि ते अस्तु एतादृशः शीघ्रम् एव परिणामः कुत्रापि द्रष्टुं न शक्यते परन्तु एकचिन् एकचर्चा अभवत् अत्र रेलयाने कदाचित् अभवत् कदाचित् एकस्मिन् यदा अहं भारत अबुधाबी मध्ये प्रयाणं कृतवती तत्रापि विमानस्थाने तत्र यदाहं विमाने भोजनं कर्तुं न इष्टवती तत्र मम समीपे एका पाश्चात्यमहिला आसीत् यू केतः सा दृष्ट्वा सा दृष्टवती अहं किमपि तत्र न स्वीकृतवती किमपि जूस् वा भोजनं वा विमाने अनन्तरम् अहं यदा मम पेटिका स्वीकृतवती तत्र स्प्रौट्स् आसीत् अनन्तरं किञ्चित् फलानि आसीत् तत्सर्वं दृष्ट्वा सा उक्तवती भवत्याः भोजनं तु रुचिकरम दृश्यते मम भोजनात् तादृशं कदाचित् कुत्रापि चर्चा भवति तत् कुत्र गच्छति तस्य गतिः किमहं न जानामि परन्तु यदा कदाचित् तादृशः अवसरं प्राप्नोमि चेत् एतादृशः अपि एतादृशः एव भोजनं भवतु इति भवती चेत् शरीरस्य न तु केवलं शरीरस्य मनसि अपि वर्धनं भवति इति कदाचित् चर्चा भवि भारते यदा यदा कदाचित् एतादृशः प्रयाणं भवति कदाचित् एकस्मिन् मासे पूर्वे अहम् एक अत्र एक फङ्क्षन् इति आसीत् तत्र तु मया दृढतया एव उक्तवान् वा उक्तवती तत्र अहं किमपि तत्र न स्वीकरोमि किमर्थम् इत्युक्ते एतद् मम भोजनं न आसीत् तत्र बहु सङ्घर्षः अभवत् वादविवादः अपि परन्तु अहं न जानामि शक्तिः आगतं मम समीपे अहं तत्र दृढतया उक्तवती अहं तत्र यत्किमपि तद् प्रसादं भवतु तद न स्वीकरोमि केवलम् अस्तु यत्किमपि स्वीकरोमि चेत् तत्र फलस्यापि प्रसादं नैवेद्यम् इति कृतवन्तः खलु तद् अहं स्वीकरोमि परन्तु किमपि पक्वभोजनस्य यत्किमपि मधुरम् आसीद् वा पायसं तत्सर्वं तत्सर्वम् अहं किमपि न स्वीकरोमि मम कृते किमपि तत्र ते सर्वे किमस्ति कदलीपत्रं तत्र विस्ता तत्र सर्वाणि व्यञ्जनानि स्थापयित्वा तादृशः ट्रेडिशनल् भोजनमिति उक्त्वा सर्वे तत्र उक्तवन्तः किमपि यत् किमपि किञ्चित् स्वीकरोतु अधिकानि नास्ति चेत् परन्तु तत्र मया अहं दृढतया उक्तवती न स्वीकरोमि एतत् सर्वं मम भोजनं नास्ति ना मम कृते किमपि आवश्यकता अपि नास्ति अनन्तरं तद्दृष्ट्वा ते उक्तवन्तः अस्तु यत्किमपि एकं फलं स्वीकरोतु अतः अहं तत्र फलद्वयं स्वीकृतवती केचन जनाः मम समीपे पृष्टवन्तः एतत् कीदृशम् स्वीकरोति किं भवति किमपि कि डायट् प्लान् अस्ति वा तत्रापि चर्चा अभवत् तत्र जनद्वयस्य समीपे ते अपि उक्तवन्तः मम वयमपि एतादृशं कुर्मः वैट् लास् कर्तुम् अहं तु उक्तवती मम तादृश वैट् लास् नास्ति परन्तु एतद् योगनिष्ठजीवनमिति एका अस्ति तत्र एतादृश भवति तदेकचर्चा अभवत् तेषां मनसि पुनः ते अधिकं ज्ञातुम् इच्छन्ति चेत् ते, चेत ते मां सम्पर्कं कुर्वन्ति चेत् अहम् अधिकतया वक्तुं शक्नोमि परन्तु यदा कुत्रापि अवसरम् अस्ति चेत् अहं तत्र निश्चयेन वदामि बहु समीचीनं भगिनी सम्यक् अस्ति बहु सम्यक् भवत्याः वचनानि प्रेरणादायकानि सन्ति अनन्तरम् उत्साहवर्धकानि अपि सन्ति सम्यक् बहु समीचीनं भवति सम्यक्तया प्रयासं करोति एवमेव मम अनुभवः मम अनुभवः अपि इत्युक्ते कोऽपि स्ट्रेञ्जर् अस्ति चेत् तेषां सविधे वयं योगनिष्ठजीवनम् जीवनमित्यसे विषये वदामः चेत् ते शृण्वन्ति उत्साहेन शृण्वन्ति अनन्तरं तस्य जीवने पालनं कुर्वन्ति वा इति भिन्नविषयः अस्ति इत्युक्ते तेषाम् एवमपि अस्ति इति तेषाम् इदानीमेव प्रथमवारं ज्ञानं भवति एतावता एतादृशं कदापि कुत्रापि न श्रुतम् इति कृत्वा यदा वयं वदामः तदानीं तत्र कश्चन उत्साहः अस्ति एवमपि वयं कर्तुं शक्नुमः इति उत्साहः अस्ति परन्तु प्रायः ते चिन्तयन्ति एतत् सर्वं मम कृते नास्ति इति इति विचिन्त्य पुनः तत्सर्वं स्वीकुर्वन्ति सामान्यभोजनम् इत्यपि अस्ति अतः अस्माभिः प्रयासः करणीयः कः सम्पूर्णतया पालनं कुर्वन्ति अथवा कः करोति अथवा कः न करोति इति वयं न जानीमः खलु कः सिद्धः कः सिद्ध न सिद्धः इति न जानीमः अतः अस्माभिः तु निरन्तरं प्रयासः करणीयः अस्तु सम्यक् अस्ति सरलाभग्नि भवत्याः अनुभवः अस्ति वा अन्येषां तु भवत्याः ये बान्धवाः सन्ति तेषां सवेदे उक्तवती खलु आं तेषां तेषां प्रति अहं वदामि किन्तु कोऽपि न पालय पालयति किन्तु अहं प्रयासं कुर्वन्ती hmm. okay, okay. अस्मि अन्ये अन्यजनानां विषये अन्यजनानां विषये इति न कारणकी अहं पूर्णतया तेषां समीपे इति न खादामि नास्ति न ना केवलं खादति परन्तु भवत्याः सम्पर्के अन्ये जनाः अपि आगच्छन्ति खलु यथा अहं केलिफोर्निया गतवती तत्र अहं किमपि न स्वीकृतवती तत्र ते दृष्टवन्तः मम मम भाग्न्यै वा तेषां पुत्रपुत्री किन्तु तेषां प्रवृत्तिः नास्ति ज्ञातुम् अपि न इच्छन्ति अपि अस्माकम् अनुभवः कदाचित् भवति केचन जनाः न इच्छन्ति एव श्रोतुमपि न इच्छन्ति इति अपि भवितुम् अर्हति आमां समीचीनं भगिनी तर्हि इदानीं कोऽपि प्रश्नः अस्ति वा सम्यक् जातं भवताः भवन्तः सर्वे योगनस्य जीवने प्रयासं कुर्वन्तः सन्ति Uh, इति सन्तोषस्य विषयः अस्माभिः अग्रे गन्तव्यम् तर्हि इदानीम् अस्माकं किञ्चित् uh, समयः आसीत् सः अस्माकं करपत्रं प्रति गच्छामः वा <laughs> स्क्रीन् दृश्यते वा आं तर्हि अस्माभिः अत्र साधनायाः आवश्यकता इति विषयः अनुवर्तते अस्माभिः दृष्टं यत् प्रत्येकं कर्म यद्वयं कुर्मः तस्य प्रतिक्रिया अवश्यमेव भवति तादृशप्रतिक्रियानाम् अनुभवः अस्माभिः अवश्यं करणीयं प्रतिक्रियानाम् अनुभवः अस्मिन् जन्मनि वा अग्रिमजन्मनि वा भवितुम् अर्हति तर्हि इदानीम् अस्माभिः दृष्टं साधनाद्वारा यदा अलौकिकशक्तिः अलौकिकशक्तयः लभ्यन्ते तदानीं तेषां प्रयोगः अस्माभिः न करणीयः तेषां प्रयोगं कुर्मः चेत् तदपि एकं कर्म एव भवति तर्हि तद् कर्म कीदृशकर्म इति चेत् ईश्वरनिन्दकं कर्म किमर्थम् ईश्वरनिन्दकं कर्म इति चेत् परमात्मा सर्वं जानाति इति अस्माभिः प्रथमतया अङ्गीकरणीयं यदि परमात्मा सर्वं जानाति किं कथं कथं किमपि भवेत् इति सः जानाति इत्युक्ते लोकः कथं भवेत् सिष्टौ प्रत्येकं जीवः कथं भवेत् प्रत्येकं जीवस्य अग्रगतिः कथं भवेत् सर्वं सः जानाति अत्र अस्मिन् जगति तृणमपि न चलति तस्य न वहति तस्य इच्छां विना इति एवम् अस्ति चेत् कुत्रचित् कस्यचित् पुरुषस्य रोगः अस्ति चेत् सः जानाति परमात्मा जानाति तस्य रोगस्य निवारणं भव, भवतु वा न वा कदा भवतु अस्मिन् जन्मनि भवतु वा नो चेत् तस्य मरणं भवति वा रोगात् इति सः जानाति तद् तस्य इच्छानुगुणमेव सर्वं प्रचलति तर्हि यः योगी अस्ति अस्य पार्श्वे एतादृश अलौकिकशक्तिः अस्ति सः यदि चिन्तयति इदानीम् एतादृशपुरुषस्य रोगः रोगस्य निवारणं भवतु किमर्थं सः कष्टम् अनुभवति इति विचिन्त्य शक्तीनां प्रयोगं कृत्वा तस्य निवारणं करोति चेत् तर्हि तत्र सः तु तत्र परमात्मनः नियमस्य नियमेत सः हस्तक्षेपं करोति खलु तर्हि ईश्वरस्य निन्दकं कर्म अस्ति अतः अतः दुष्टं कर्म अस्ति वस्तुतः सामान्यकर्म नास्ति दुष्टं कर्म सामान्यरीत्या वयम् अन्यस्य सहायं कुर्मः चेत् तत्र तु भिन्नवार्ता परन्तु शक्तीनां प्रयोगेन अन्यस्य साहाय्यं कुर्मः चेत् तत्तु निन्दकं कर्म अस्ति ईश्वरनिन्दकं कर्म अस्ति इति एव एतादृशकर्म अस्माभिः कदापि न करणीयः इत्युक्ते तत्र लोके यः कार्यकारणभावः अस्ति तादृशभावे अस्माभिः हस्त हस्तक्षेपः क्रियमाणः अतः तद् निन्दकं कर्म अस्ति ईश्वरनिन्दकं कर्म तादृशकर्म अस्माभिः न करणीयम् इत्युक्ते टु चालेञ्ज् परमात्मास् अथारिटि तर्हि स सर्वं जानाति स न जानाति वा लोके कदा किं किं भवेत् इति स न जानाति वा किमर्थं वयं हस्तक्षेपं कृत्वा ओ अहं जनस्य सहायं करोमि ईश्वरः एवम् इच्छति इति नास्ति ईश्वरः न इच्छति तद् ईश्वरः यता इच्छति तत् ता तथैव सर्वं भवति अतः हस्तक्षेपः अस्माभिः न करणीयः यतोहि अस्माकं लक्ष्यं तु परमपुरुषः अस्ति न तु अलौकिकशक्तिः न तु अलौकिकशक्तिद्वारा अन्यस्य सहायं तदस्माकं लक्ष्यं नास्ति इति सर्वं सम्यक्तया अवगत्य इदानीं किञ्चित् अग्रे गच्छामः तर्हि किं सुत्रभग्नि अग्रे पठति साधनाभ्यासेन मुक्तिः प्राप्तुं शक्यते अतः साधनायाः कृते विशेषविधिः अवश्यमेव स्यात् एतत् केवलं यः तन्त्रं जानाति सः एव उपदेष्टुं शक्यते अतः आवश्यकमस्ति यत् अस्माभिः साधनाभ्यासम् अध्येतुं तादृशगुरुः अन्वेष्टव्यः यः एतत् तन्त्रं जानाति तर्हि साधनाभ्यासस्य शिक्षणाय मुक्तिप्राप्त्यर्थं च गुरुः सर्वथा आवश्यकः इत्यर्थः अस्ति वा अथवा स्वयमेव साधनाम् अधिगन्तुं शक्यते कारागारे स्थितस्य पुरुषस्य पाणिपादं शृङ्खलबन्धितं चेत् सः पुरुषः उत्तमप्रयत्नेन अपि कदापि स्वं न शक्नोति यावत् अन्यः कोपि कारागारद्वाराणि उद्घाट्य तस्य पुरुषस्य शृङ्खलां न अपसारयति तथैव जनाः प्रकृत्याशृङ्खलाबन्धाः सन्ति ते अस्मिन् विस्तृते कारागारे अथवा जगति अवरुद्धाः सन्ति तेषां स्वतन्त्रता अन्यस्य पुरुषस्य सहायेन विना कदापि न सम्भवति तत्र यद्वयं चर्चितवन्तः साधनाभ्यासेन एव मुक्तिः प्राप्तुं शक्यते इति तर्हि एतत् साधनां कर्तुं कीदृशः प्रयासः आवश्यकम् स्वयमेव एतादृशः किमपि प्रयासं कर्तुं शक्यते वा इति प्रष्टम् अस्ति चेत् तत्र साधना अभ्यासम् आरम्भं कर्तुं साधना इति किम् तत्र गुरोः आवश्यकता अस्ति यः एतत् साधना की कीदृशं भवति इति कीदृशं करणीयम् इति अस्माकम् उपदेष्टुं शक्यते किमर्थम् इत्युक्ते यः एतद्विषये सम्यक् रूपेण जानाति साधना इति अभ्यासः कीदृशः भवेत् कथं करणीयम् इति सर्वम् सः एव सम्यग्रीत्या वक्तुं शक्यते सोपानानि कानि इति अतः गुरोः आवश्यकता अस्ति एव स्वयमेव कर्तुं न शक्यते तत्र एकम् उदाहरणमपि अस्ति यदा कोपि जनः अस्ति तस्य पाणिपादं शृङ्खलवर्धः अस्ति सः तस्य तद् मुक्तिः कथं भवेत् कारागारे अस्ति तत्र पाणिपादानि अपि बन्धितमस्ति तर्हि तस्य मुक्तिः कथं भवेत् इति चेत् अन्य कोऽपि यदि तस्य तत्र आगत्य यस्य यः ना यह नास्ति सः अपि एतद् बन्धस्य बन्ध विमोचनं कर्तुं शक्यते अन्यथा तु तस्य तु हस्तानि बन्धिताः सन्ति ततः कथं तस्य मुक्तिः भवेत् बन्धनमोचनं कर्तुं न शक्यते अतः तादृशः अवस्था अस्ति अस्माकम् अस्मिन् जगते यदा वयं बद्धाः प्रकृत्याः गुणेन बद्धाः भवामः तत्र गुरोः आवश्यकता अस्ति यः तेन सहायेन एव अस्माकं बन्धस्य मोचनं भवति अन्यथा तु कदाचित् न सम्भवति इत्येव समीचीनं भगिनि समीचीनम् इत्युक्ते तत्र अत्र अलौकिकशक्तीनां विषये एव इदमपि अयमपि परिचयः तर्हि अत्र यदा इत्युक्ते साधनाद्वारा एव मोक्षप्राप्तिः भवति तर्हि साधनायाः पद्धतिः कथं साधनायाः पद्धतिः का इति चेत् तत्र लोके बहवः जनाः सन्ति ये साधना अहं साधनां करोमि अहं साधनां करोमि इति वदन्ति परन्तु अत्र वास्तविकसाधना का साधनायाः पद्धतिः का अस्ति कथं ज्ञातुं शक्नुमः तादृशपद्धतीनां ज्ञानं कथं भवति इति चेत् तत्र कश्चन गुरुः अपेक्षितः अस्ति गुरुः यः एतादृशपद्धतिं जानाति तर्हि अत्र किं ज्ञातव्यम् इति चेत् ब्रह्म एव गुरुः एकः न अपरः ब्रह्म एव गुरुः अस्ति अतः यद् यदा साधकः सिद्धः अस्ति एतत् ज्ञातुं तदानीं ब्रह्म एव आविर्भवति तस्य पुरतः एतद् ज्ञान ज्ञानस्य बोधनार्थम् अतः तर्हि यदि कश्चन पुरुषः कारागृहे अस्ति यदि सः प्रकृतिबन्धने वर्तते तर्हि अन्यान् सः मोचयितुं न शक्नोति स्वयं बन्धने अस्ति चेत् अन्यान् मोचयितुं न शक्नोति अतः केवलं यः पुरुषः बन्धने नास्ति सः एव अस्मान् मोक्तुं शक्नोति तर्हि तदर्थं तत्र केवलं ब्रह्म एव तत्र बन्धने नास्ति ब्रह्म एव बन्धनात् मुक्तः अस्ति केवलं सः एव अस्मान् बन्धनात् मोचयितुं शक्नोति खलु अस्मिन् जगति तत्र बहवः तथा कथिताः गुरवः सन्ति ये ये वास्तविकतया गुरः गुरवः न सन्ति ते स्वयं स्वस्य जीवने किमपि न कुर्वन्ति सर्वं केवलं वदन्ति परन्तु जीवने किमपि न कुर्वन्ति इति तादृशगुरवः अपि बहवः सन्ति अतः तैः ते ते ते ये गुरवः सन्ति तेषां सविधे वयं गच्छामः चेत् वास्तविकसाधनपद्धतिः का इति वयं न जानीमः किमपि वयं न जानीमः यतोहि ते स्वयं पालनं कुर्वन्ति इत्युक्ते ते तथाकथिताः गुरवः ये सन्ति तेषां वयं पठामः चेत् सो अबीस् दे विल् बि इटिङ्ग् एव्रिथिङ्ग् तेषां जीवने नियन्त्रणं किमपि नास्ति परन्तु ते नियन्त्रणस्य विषये बहु किमपि वदन्ति अतः तादृशगुरवः तु स्वयं बन्धने सन्ति अतः ते अस्मान् मोचयितुं न शक्नो शक्नुवन्ति अतः केवलं ये यः ब्रह्मा यः ब्रह्मा वर्तते सः एव अस्मान् बन्धनात् मोचयितुं शक्नोति सः एव गुरुः भवितुमर्हति अन्यः कोऽपि गुरुः न भवितुमर्हति यतोहि सः तु स्वयं कारागृहे अस्ति केनचित् स्वयमेव कलां ज्ञातुं न शक्यते अवश्यं हि कश्चन भवेत् यः तं पाठयितुं शक्नोति अथवा यस्य अनुकरणं कर्तुं शक्नोति तादृशपुरुष यस्मात् कलां ज्ञातुं शक्यते एव गुरु अस्थना अभ्यास अभी एक कला अस्थ गुरु एव साधना ज्ञातव्या अस्त अतः गुरु विना मुक्ति न संभव मुक्ति प्राप्ति अर्थ गुर सर्वदा प्रधान आवश्यकता अतः अस्ट पिछेदे गुरु अत्र प्रधानता प्राधान्य दत्तम स्वयमेव यदि साधकप्रयत्नं करोति साधनायाः तु इति पूर्णतया कथं करणीयम् इति न जानाति सः उपविश्य ध्यानं करोति किन्तु तस्य मनः इतरोतर भावति इति न जानाति हम किं करोमि इति कथं तस्य मनस्य धावनमिति स्थ सग, स्थगयामि इति न जानाति तस्य गुरोः आवश्यकता अस्ति गुरोः इति मार्गदर्शनं करोति यदि गुरुः नास्ति स्वयम् एव प्रयत्नं करो कुर्मः तत् ता, तत्र ता, किमपि प्रगतिः न भवति यथा भवती उक्तवती ब्रह्मा अस्मा अस्माकम् अन्तरे अस्ति किन्तु तत् एव गुरु अस्ति किन्तु कथं ज्ञा जाना जानीमः इति गुरोः एव यत् मार्गदर् दर्शनं दा, भवति तत् ता, तस्मात् यदि वयं मार्गं कर्तुं प्रयत्नं कुर्मः साधना कथं करणीयम् उपविश्य किं करणीयम् इति यदि वयं जानीमः इति सुलभं भवति अस्ति साधनायाः अभ्यासः कथं करणीयमिति गुरोः प्राधान्यं कत् किम् अस्ति इति दत्तमस्ति अत्र सम्यक् भवति इत्युक्ते तत्र साधनायाः ज्ञानार्थं कश्चन गुरुः अपेक्षितः अस्ति तर्हि गुरुः इत्युक्ते कः इति अस्माभिः अवगन्तव्यं गुरुः इत्युक्ते तादृशसत्ता यस्मिन् तादृशसामर्थ्यम् अस्ति येन सामर्थ्येन सः अन्यान् अन्धकारात् निवारयति इत्युक्ते इदानीं सामान्यतया जनाः जनानां मन मनः तु अन्धकारे वर्तते गुरुः इत्युक्ते तादृशसत्ता यः मनसः अन्धकारं निवारयति केवलं तादृश सत्तायाम् एव तादृशसामर्थ्यं वर्तते यः स्वयम् अन्धकारे नास्ति स्वयं यदि सः स्वयम् अन्धकारे अस्ति तर्हि अन्यान् अन्धकारात् निवारयितुं न शक्नोति अतः गुरुः इत्युक्ते तादृशसत्ता यः स्वयम् अन्धकारे नास्ति गुरुः आवश्यकमस्ति अनिवार्यः अनिवार्यः अस्ति गुरुं विना वयम् अग्रगतिं प्राप्तुं न शक्नुमः वयं स्वयं पद्धतिं निर्मातुं न शक्नुमः अस्मासु तादृशसामर्थ्यं नास्ति अतः यदि वयं इदानीन्तर पशुजीवने वयं यदा व्यवहारं कुर्मः तदानीं वयं स्वयम् अन्धकारे स्मः अतः अन्धकारात् निवारयितुम् अन्धकारात् अस्मान् नेतुम् अन्यः कश्चन अपेक्षितः अस्ति यः गुरुः अस्ति तर्हि यदि तत्र तादृशगुरुसकाशात् वयं साधनापद्धतिं साधनायाः दीक्षां वयं प्राप्नुमः तदनन्तरं तदनन्तरं वयं तस्य अनुसरणं कुर्मः साधनायाः अनुसरणं कुर्मः तदानीं तत्र मुक्तिः मोक्षः अवश्यं लभ्यते वयं मानवजीवनस्य पालनं कुर्मः तदानीम् अग्रगतिः अवश्यमेव भवति तर्हि यः कोऽपि मनुष्यः इत्युक्ते कः मनुष्यः साधनां प्राप्तुम् अर्हति इति चेत् कस्मिन् सामर्थ्यं वर्तते इति चेत् प्रत्येकं मनुष्ये एतादृशसामर्थ्यं वर्तते यस्य मानवशरीरम् अस्ति अपि च मनः अस्ति तस्मिन् तस्मिन् एतादृशसामर्थ्यम् अवश्यमेव अस्ति सः एव अस्मान् अन्धकारात् यः निवारयति अन्धकारं निवारयति सः एव गुरुः तर्हि अतः अस्माभिः किं करणीयम् इति चेत् यदा साधनायाः दीक्षा लब्धा चेत् तत्र साधनायां तत्र किं एकाग्रम् एकाग्रं भूत्वा तत्र साधनायां मनः लग्नं भवेत् तर्हि तदर्थं तत्र योगनस्य जीवने ये अंशाः सन्ति तेषां सर्वेषामपि अस्मा अस्माभिः तेषां सर्वेषां पालनम् अस्माभिः करणीयं यदा पालनं कुर्मः तदानीं मनसः कृते सम्यक् वातावरणं लभ्यते अग्रगतिं प्राप्तुम् अस्तु तर्हि अन्तिमपरिच्छेदमेकं स्वीकुर्मः सुचित्र भगिनि अग्रि तत्र एकः प्रश्नः अस्ति यदा गुरोः आवश्यकता अस्ति सत्यं परन्तु कथं जानीमः सः एव अस्माकं गुरुः इति इदानीं तु सर्वे जनाः गुरु इति भूत्वा तत्र अनेकाः किमस्ति काषाय वेशधारिणः भवन्ति कथं जानीमः सः एव अस्माकं गुरुः इति इत्युक्ते यदा वयं सिद्धाः भवामः तदानीं परमपुरुषः एव स्वयम् आविर्भवति सः एव सर्वं करोति अस्माकं ह हस्ते किमपि नास्ति अस्माभिः ज्ञातव्यम् इति किमपि नास्ति यदा सः अस्माकं पुरतः आविर्भवति तदानीम् अस्माकं हृदि यदा वयं सिद्धाः भवामः तस्माकं तदा अस्माकं हृदि वयम् अवगच्छामः एतदेव सम्यक् मार्गः अस्ति इति अस्मा अस्माभिः अवगम्यते तदानीम् अग्रगतिः अपि भवति यदि वयं सिद्धाः न भवामः तदानीं संशयः भवन्ति अस्माकं हृदि अपि इच्छा न भवति तत् कर्तुं यदा वयं सिद्धाः भवामः तदानीं परमपुरुषस्य तत्र कार्यमस्ति एतद् अस्माकं पुरतः आविर्भूय एतत् सर्वं प्रकटीकरणम् इति तस्य तस्य दायित्वम् अस्ति अतः अस्माभिः चिन्ता न करणीया यदा वयं सिद्धाः स्मः तदानीं सः स्वयं कथञ्चित् आगच्छति कस्यचित् माध्यमेन आगच्छति आगत्य सर्वं बोधयति अतः अस्माकं हस्ते किमपि नास्ति कथं ज्ञातव्यं कथं न ज्ञातव्यम् इति किमपि नास्ति यदा सः आविर्भवति तदानीं वयं स्वयं अन्तश्चक्षुतः वयम् अवगच्छामः अस्माकं हृदि आनन्दः भवति वयं स्वयं स्वीकुर्मः तावदेव खलु वि फील् फ्रोम् द इनर् हार्ट् विस् रैट् वि फील् देट् वि फालो इट् इफ् यु डोण्ट् फील् इट् इस् रैट् देन् वी विल् नाट् फालो इट् सो कथं जानीमः इति चेत् विल् नो इट् फ्रोम् द इनर् हार्ट् मीन् दर् ऐस् आर् ओपन् वि विल् नो इट् अस्तु कुतः बन्धन बन्धनस्थः बन्धनस्थः पुरुषः बन्धनात् परां मोचयितुं न शक्नोति यस्य हस्तपादाः शृङ्खलावध्यः सः न परेषां शृङ्खलां हाप्तुं शक्नोति अतः हा यः पुरुषः अमुक्तः सः परेभ्यः मुक्तिं दातुं न शक्नोति सत्यस्य प्रभावात् सम्पूर्णतया मुक्ता एका एकमात्रा सत्ता वर्तते सा सत्ता निर्गुणब्रह्मा अस्ति सा एव सत्ता वासवतः मुक्तः इति वक्तुं शक्यते अत्र यद्बन्धनस्य विषये अस्माकं चर्चा आसीत् बन्धनस्य मुक्तिः बन्धनात् मुक्तिः कथं भवति इति तत्र अत्र दत्तमस्ति यः पुरुषः स्वयमेव बन्धने अस्ति सः कथम् अन्यान् मोचय बन्धना मोचयितुं शक्नोति वा न कर्तुं शक्यते यः स्वयमेव इदानीं प्रकृतिबन्धने अस्ति चेत् सः कथम् अन्यस्य वन्दनस्य मोचनं कर्तुं शक्नोति मृङ्खलावः स्वयमेव चेत् अन्यस्य अन्या कृते अपि शृङ्खला हर्तुं सः न शक्नोति अतः कः शक्नोति इति पृष्ट पृच्छामः चेत् यः स्वयम् मुक्तः अस्ति यः बन्धने अस्ति सः मुक्तिं दातुं न शक्नोति तादृशसप्ता कः अस्ति यः बन्धने एव न इति पश्यामः चेत् तत्र एकः एव सप्ता तादृशमस्ति सः अस्ति सः एव बन्धनेन अस्ति सगुणब्रह्म अपि बन्धने एव अस्ति अतः निर्गुणब्रह्म यः अस्ति सः एव अन्य य साधना रताः सन्ति तेषां बन्धमुक्तुं शक्यते सः एव बन्धनस्य वास्तवि वा, वास्तविकतया पश्यामः सः एव मुक्तपुरुषः मुक्तः इति वक्तुं शक्यते अन्ये सर्वे तु प्रकृतेः बन्धने एव सन्ति समीचीनं सम्यक् भगिनि तर्हि अत्र किमस्ति चेत् यः पुरुषः वन्दने अस्ति यः पुरुषः काराग्रहे अस्ति सः अन्यान् मोचयितुं न शक्नोति तेषां सविरे कुञ्चिका नास्ति तर्हि यः पुरुषः वन्दने नास्ति सः एव अस्मान् मोचयितुं शक्नोति इत्युक्ते सः काराग्रे न भवेत् कारागृहात् कारागृहात् बहिः भवेत् तदानीमेव अस्मान् कारागृहात् बहिः आनेतुं शक्नोति तर्हि तादृशसामर्थ्यं निर्गुणब्रह्मणि वर्तते वा निर्गुणपुरुषः तु बन्धने नास्ति सः तु मुक्तः अस्ति मुक्तः पुरुषः अस्ति तर्हि सः निर्गुणब्रह्म यः वर्तते सः अस्मान् मोचयितुं शक्नोति वा इति अस् अत्र प्रश्नः उदेति तर्हि तस्य उत्तरम् अग्रिमपरिचय अस्ति तद्वयम् अग्रिमसप्ताहे वयं पश्यामः अत्र वयं स्थगनं कुर्मः कोऽपि संशयः अस्ति अस्तु तर्हि सम्यक् अस्ति अत्र धन्यवादाः नमस्कारः अत्र नमस्कारः धन्यवादः धन्यवादः नमस्कारः